अथा पञ्चचत्वारिंशत् सर्गः ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः निर्ययुर्भवनात् तस्मात् सप्त सप्तार्चिवर्चसः महद्बलपरीवारा धनुष्मन्तो महाबलाः कृतास्त्रास्त्रविदाम् श्रेष्ठाः परस्पर जयैषिणः तो यदस्वन निर्घोषैर्वाजियुक्तैर्महारथैः तप्त काञ्चन चित्राणि चापान्यमित विक्रमाः विस्फारयन्तः सम्भ्रष्टास्तटिद्वन्त इवाम्बुदाः जनन्यस्तास्ततस्तेषाम् विदित्वा किङ्करान् हतान् बभूवुः शोकसम्भ्रान्ताः सबान्धव सुहृज्जनाः ते परस्परसङ्घर्षात्तप्त काञ्चनभूषणाः अभिपेतुर्हनूमन्तम् तोरणस्थमवस्थितम् सृजन्तो बाणवृष्टिम् ते रथगर्जित निःस्वनाः प्रावृत्काल इवाम्भोदापिचेरुर्नैरृताम्बुदाः अवकीर्णस्ततस्ताभिर्हनूमाञ्चलवृष्टिभिः अभवत् संवृताकारः शैलराडिव वृष्टिभिः सशरान् वञ्चयामास तेषामाशुचरः कपिः रथवेगांश्च वीराणाम् विचरन् विमलेम् वरे सतैः क्रीडम् धनुष्मद्भिर्भ्योम् निवीरः प्रकाशते धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरम् वरे सकृत्वा निनदम् तलेनाभिहनत् कांश्चित्पादैः कांश्चित् तपः मुष्टिभिश्चाहनत् कांश्चिन्नखैः कांश्चिद्व्यदारयत् प्रममाथोरसा तत्रैव पतिता भुवि ततस्तेष्वपन्नेषु भूमौ निपतितेषु च तत्सैन्यमगमत् सर्वम् दिशो दशभयार्दितम् विने दुर्विस्वरम् नागानिपेतुर्भुविवाजिनः भग्ननीडध्वजच्छत्रैर्भूश्च कीर्णाभवद्रथैः स्रवतारुधिरेणाथ स्रवन्त्योदर्शिताः तदा सतान् प्रवृद्धान् युयत्सुरन्यैः पुनरेव राक्षसैस्तदेव वीरोऽपि जगामतोरणम् इत्यार्षे श्रीमद् रामायणे आदिकाव्ये सुन्दरकाण्डे पञ्चचत्वारिंशः सर्गः